शासनम् औं धीकृ ए ॐ ऐ औ हा या भार्यामय धा ध त्याह याम् अन्तरम् भवेयु अद्यै भावश्च श्रीर्वनामस्थानम् अद्यै भावश्च श्रीशर्वनामस्थानम् पुनः पुंसकस्य पुंसकस्य श्री सर्वनामस्थानम् षडनपुंसकस्य श्री सर्वनामस्थानम् षडनपुंसकस्य अव्ययीभावश्च श्रीसर्वमस्थानम् फुलनपुंसकस्य अग्रयि भावश्च वेति विभाषा नवेति विभाषा नवेति विभाषा नवेति विभाषा नवेति विभाषा नवेति न वेति भाषा सुवर्णपुंस नवेति भाषा सुवर्णपुंस नवेति भाषा श्री सर्वनामस्थानं नवेति भाषा श्री सर्वनामस्थानं जनः सम्प्रसारणम् नवेति विभाषा इदना सम्प्रसारणम् नवेति विभाषा इदना सम्प्रसारणम् इणः सम्प्रसारणम् जनः सम्प्रसारणम् नवेति भाषा एन सम्प्रसारणम् नवेति भाषा एन सम्प्रसारण नवेति विभाषा एनः सम्प्रसारण ौ टरितौ न वेतिः भाषा इद्रणा सम्प्रसारणम् आभ्यन्तौ टितौ नवेतिः विभाषा आद्यन्तौ टितौ आद्यन्तौ टितौ सुनपुंसकस्य नवेति विभाषा आयन्तौ टगितौ सुडनपुंसकस्य नवेति विभाषा इयन्तौटितौ श्री सर्वनामस्थानम् सुडनपुंसकस्य न वेति विभाषा इय सम्प्रसारणम् आयन्तौ टवितो श्री स्य न वेति विभाषा एनः सम्प्रसारणम् आद्यन्तौ चलितौति न वेति विभाषा एनः सम्प्रसारणम् आद्यन्तौ चलितौ वेति विभाषा एना सम्प्रसारणम् आजन्तौ कथितौ श्रीसनामस्थानम् सुदनपुंसकस्य न वेति विभाषा एजना सम्प्रसारणम् आजन्तौ चलितौ